श्रीहरये नमः अथ अष्टाविंशोऽध्यायः नारथौ वाचा सैनिकाभयनाम्नो यबर्हिष्मन्दिष्टकारिणः प्रज्वारकालकन्याभ्यां विचे रुरवनीमि मां तये गता तुरभसा पुरञ्जनपुरीं नृप रुरुधुर्भौमभो घाट्यां जरत्पन्नपालितां कालकन्या बलात् यया भूयिभूतपुरुषः निस्सारतामि तयोपभुज्यमानं प्रविश्य सुभृशं प्रार्थयन् सकलां पुरे तस्यां प्रपीड्यमानायाम् अभिमानिपुरञ्जनः अवाबोरुविधां स्थापान् कुटुम्बी ममताकुलः कन्योपगूटो नष्टश्रीकृपणो विषयात्मकः प्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलान् विशीर्णां स्वपुरीं वीक्ष प्रतिकूलान्नादृतान् पुत्रान् पौत्रानुघामाद्यां जायां जायां च गतसौहृदान् आत्मानं कन्यया ग्रस्तं पञ्चालानरिधूषितान् दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियां कामानभिलक्षन् दीनो यातया मांश्च कन्यया विगदात्मगतिस्नेहः पु लालयन् गन्धर्वयवनाक्रान्तं कालकन्योपमर्दिता हातुं प्र चक्रमे राजा तां पुरीमनिकामतः भय नाम्नोऽ भ्राता प्रज्वारः प्रत्युपस्थिता प्रत्युपस्थितः धाता कदा पुरें कृनां भ्रातुप्रियचिकीर्षया तस्यां सन्तह्यमानायां सपरोः सपरौ सपरश्चतः कौडुम्बिककुडुम्बिन्या उपताप्यतसान्वयः यवनोपरुद्धाय तनोग्रतायां कालकन्यया पुर्यां व्रजस्वारसं वृष्टः पुरपालोन्वतप्यत न सेके सोभितुं तत्र पुरुकृच्च रोरु वेबतुः गन्तुमैश्च ततो वृक्ष कोढाराधिवसानलात् शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः यवैनैररिभिजन् उभरुद्धोरुरोधः दुहितृपुत्रपौत्रांश्च जामि झामातृपार्षधान् स्वत्वावसिष्ठं यत्किञ्चित् गृहकोशपरिच्छम् अहम् ममेति स्वीकृत्य गृहेषु कुमतिर्गृहे दद्यो भ्रमधया दीनोऽभिप्रयोगमुपस्थिते लोकांतरं गतवती मय्यनाथ कुटुम्बिनी वर्तिष्यते कथं त्वेषा बालका न मय्य नाशिते भङ्क्ते नास्नाते स्नाति मत्परं मयिरुष्टे सुसंत्रस्ता भर्त्सिते यथ वाग्भयात् प्रबोधयति माविज्ञं व्युषुते सोकर्षिता वर्तमैतद्गृहमेधियं वीरसूरभिनेष्यति कथं धारका दीना धारकीर्वापरायणाः वर्तिष्यन्ते मयि गते बिन्वानवयि वो एवं कृपणया बुद्ध्या शोचन्तं मदधर्हणम् गृहीतुं कृतधीरेनं भयनामाभ्य पशुवत्य वै नरेश नीयमानस्वकं चयम् अन्वद्भ्रवन्ननुपथा सोचन्तो भृसमातुराः पुरीं विहायो भगतबुपरुद्धो भुजङ्गमः यथातामेवानुपुरि विकृष्यमाणप्रसभं यवनेन भलीयसा नाविन्धत्तमसाविष्टसखायं सुकृदं पुरः तं यज्ञपसवोनेन संज्ञप्त्वा ये अनन्तपारे तमसिमग्नो मग्नो नष्टस्मृतिस्समाः शाश्वतीरनुभूयार्तिं प्रमथासङ्गदूषितः तामेव मनसा गृह्णन् बभूव प्रमथोत्तम अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनीम् उपयेम वीर्यपणां वैदर्भीं युधिर्दिज्य राजन पांड्य पांड्यपर पुरजयहहा तस्यां स जनयाञ्चक्र आत्मजामसि तेषणां यवीयसोत्तसुधान् सप्त द्रविढभूवृतः एकैकस्याभवत्तेषां राजन् अर्भुतमर्भुतं भोक्ष्यते यत् वं सतरैर्महीमन्वन्तरं परम् अगस्त्यभ्राग्दुहीतरम् उपयेमधृतव्रतां यस्यां दृढस्युतो जात इत्मवाहात्मजो मुनि भजतनयेभ्यक्ष्मां राजर्षिर्मलयध्वजः आरीराधयिषु प्रश्नं सगजामकुलाचलं हित्वा गृहान् सुतान् भोगान् वै दर्भीमधिरेक्षणा अन्वधा पाण्ड्येशं ताम्रपर्णे वटोदगा तत्पुण्यसलिलैर्नित्यम् उभयत्रात्मनो मृजन् कन्ताष्टिभिर्मूलफलैः पुष्पर्णैस्तृणोदगैः वर्तमानस्स नैर्घात्र कर्शनं तप आस्थितः सीतोष्णवातवर्षाणि श्रुत्तिभासे प्रियाप्रिये सुगदुःखे यदि द्वन्द्वानि अजयत्समदर्शनः तपसा वित्यया पक्वकषायो युयुजे ब्रह्मरात्मानं विजिदाक्षनिलाशयः आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः वासुदेवे भगवती नान्यद्वेधात्मघन् रथिं सव्यापकतयात्मानं व्यतिरिक्ततयात्मने विद्वान् स्वप्नयि वामर्स साक्षिणं विररामः साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखं परे ब्रह्मणि परं ब्रह्म तथात्मनि वीक्षमाणो विकाये क्षाम् अस्मात् पतिं परमधर्मज्ञं वैधर्भीम पर्यचरत् हित्वा भो कांसा पतिदेवता क्षीरवासो व्रतक्षामा वेणीभूतशिरोरुहा भभावुपतिं शान्ता शिखा शान्तमिवानलम् अजानति प्रियतमं यथोपरतमघना सुस्थिरासनम् असाध्य यथा पूर्वम् उपाचरद् यधानोपलभेधाङ्क्रौ उष्माणं पत्युरर्चति आसीत् संविघ्नकृतया यूत भ्रष्टा मृगीयत आत्मानं सोचति दीनम् अभन्तुं विक्लवाश्रुभिः स्तनावाशिष्यविपिने विपिने सुश्वरं रुरुरोदस उत्तिष्ठोत्तिष्ठ इमामुदतिमेकलां मे कलां दस्युभ्यक्षत्रबन्धुभ्योऽव्यतीं पातुमर्हसे एवं विलपन्ति भाला विपिनेऽनुगता पतिं पतिता पादयोर्भर्दूरुधत्यश्रूणि अवर्तयत् चितिं दारुमयीं चित्वा तस्यां पत्युकळेवरम् तत्र पूर्वतरकच्चित् सखा ब्राह्मण आत्मवान् सान्त्वयन्वल्गुना साम्ना तामाहरुदतीं प्रभो ब्राह्मण उवाच का त्वं कस्यासि को शायानो यस्य शोषचीं जानासि किं सखायं येनाग्रे विशशर्तः अपि स्मरसि सात्मानाम् अभिज्ञातसखं सखे हित्वा मां पदम् अन्विच्छन् भौमभोगरथो गतः हंसावखं चत्वं चार्यसखायौ मानसयानौ आभूतामन्तरावौगसहस्रपरिवत्सरान् सत्त्वं विहाय मां भन्तो गतो ग्राम्यमतिर्मह्य विचरन् वधमद्राक्षी कयाचिन्निर्मितं स्त्रियान् पञ्चारामं नवद्वारम् एकपालं त्रिकोष्टकं षट्कुलं पन... पञ्च विपणं पञ्च प्रकृतिस्त्रीधवं पञ्चेन्द्रियार्था आराम द्वारः प्राणाभो तेजो भन्नानि गोष्ठानि कुलमिन्द्रियसङ्ग्रगः विपणस्तदृक्रिया शक्तेर्भूतप्रकृतिरव्यया शक्त्यतीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते तस्मिं रममाणोऽस्रुतस्मृतिः तत्सङ्घादीतृशीं प्राप्तो दशां पापीयशीं प्रभो न त्वं विदर्भदुहितानायं वीरसुहृत्तवा न पतिस्त्वं पुरञ्जन्यारुद्धो नवमुखेययाम् माया ह्येषा मया सृष्टा यत्पुमां संस्त्रियं सतीन् मन्यसे नो भयं यत्त्वैहंसौ पश्याभयोर्गतिम् अहं भवान्न चान्यस्त्वं त्वमेवाहं विचश्व भोगो ननौ पश्यन्ति कवयश्चित्रं यथा पुरुष आत्मानमेकम् आदर्शचक्षुषोः द्विता भूतम् अवेक्षेत तथैवान्तरमावयोः एवं समानसोऽहंसो हंसेन प्रतिबोधितः स्वस्तव्यभिचारेण नष्ठा मा भपुनस्मृतिम् बर्हिष्मन्नेतद्धत्यात्मं परोक्षेण प्रदर्शितं यत्परोक्षप्रियो देवो भगवान् विश्वभावनः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते पुरञ्जनोपाख्याने अष्टाविंशोऽध्यायः सर्वत्र सर्व गोपीका गोविंदा गोविंदा सद्गुरु सद्गुमहराज की जय